हरिः ॐ मा कृष्णो अस्या खरे अष्टग्नाये यत्वा जुष्टां ब्रोवक्षात् विवेदी राशि बारेहि खेयत्वा जुष्टां ब्रोवक्षात् मी बारेहि रासि सर्वजुष्टां विष्णु अस्तु पो विश्वासस्थान् देवेऽभ्यु भुवपतये ुवपत स्वाह भुवन पतए स्वाह भूता स्वाह गवा विश्वा वसुपी दधा विश्विष्टि यजम्स परीधीस नीड ईडिता न्द्र से बाहुरासी दक्षिण अश्वस्याजमान परीधी से गनी ऋड ईडिता मित्रुत्व पीहत्तान्ध्रुवेण धर्म विश्विष्ट यजमान परीधी से गनीड ईडिता वीति होन्द्युमान सीधी समीदा अग्नेृहाम्वरे समीद शीशुवर्जस्वा पुरास्ता कैच्चिदीशस् सवितुर्बाहुवस्थ उवर्णादसन्त्वा स्तॄणामि स्वात्सस्थन् देवेभ्य आत्वा वसवोद्रा आदित्याः सदन्तु घृताच्च शिजुवर्णाम्नासीदं प्रियेत् दाम्ना प्रिय सद आसीदघृतात् शस्य उपाभेन्नाम्ना सेदांब्रियेण धाम्ना प्रियज्ञ सद आसीरकृता च सिद्ध्रुवा नाम्ना सेदांब्रियेण धाम्ना प्रियज्ञ सद आसीदप्रियेण धाम्ना प्रियज्ञ सद आसीर ध्रुवा असदनृतस्य जो नौ ता विष्णो पाहि पाहि जज्ञाम् पाहि जज्ञपतिम् पाहि माञ्जज्ञाम् अग्नेयवाजिद्वाजन्त्वा सरिक्षन्तम् वाजिदम् सम्माज्मि नमो देवेभ्यः स्वदा पितृभ्याः श्रूयामे भूयास्तमस्कान्नामद्या देवेभ्य आजन् संभ्रिया समृणा विष्णो मात्वात् वक्रामि खां वसुमतीमगनेदेच्छायामुपस्थित् खां विष्णुस्थानमसीत इन्द्रोऽव्यर्जमातृणो दूर्धुवध्वर आस्थातो अग्ने अव्येरे होत्रा व्यर्दूवत्यमवतान्त्वां द्यावा पृथिवी अवत्वान्द्यावात् पृथिवी अस्मिष्टा दृद्देवेऽभ्य इन्द्र आर्य न हविका भुवत् स्वाहा सञ्ज्योतिखा ज्योतिः मयीरमिन्द्र इन्द्रियन्ददात् तस्मान्द्राय मघवानः स चन्द्रम् अस्माक सन्त्वाशिखः सत्यानः सन्त्वाषिक उपहूता पृथिवी मातु पुमाम् पृथिवी माताभ्वयता मगनीराग्नियध्रात्स्वाहा उपहूतो दौवह पीतो देवस्य त्वा सवितुः प्रसवे अश्विनो अर्बाहुव्याम्पूष्णो हस्ताभ्यां प्रतिगृह्णाम्यदने अष्टवास्येन प्राश्नामि एतान्ते देवसवितर्जज्ञां प्रापुरबृहस्पतय ब्रह्मणे तेन यज्ञमवतेन यज्ञपतेन माम मनो ज्योतिजुखतामाज्यस्या व्रेयसपतिजज्ञा भीमान्तानु अत्वारिष्टाञ्जन्न स मीमां दधातु विश्वे देवास इय मानयन्तामू अम् प्रतिष्ठ एका ते अग्ने समित्तया व्रतस्व चाचप्यायस्व व्रजि खीमहि च अग्नि अब्वाजिद्वाजन्त्वा सेवाग्निसां वा यजितग्नि सां वार्ज्मि अग्निको मयोर्जितिमनुवजेकाम् वाजस्य मा प्रसवि न प्रोहामि अग्निको मौ तमपनुदताञ्जोऽस्मान्वियष्टिजाञ्जव्वायान् विक्नु अब्वाजस्यैनाम् प्रसवेद पूहामि इन्द्रागणोर्जितिमानुवज्ये काम् वायस्य माप्रसवे न प्रोहामि इन्द्रागणीतामपानुदताञ्जो अस्मान्वष्टिजाञ्जभवायान् बिह्मो अभ्वायस्यैनाम् प्रसवेनात् पोहामि वसुभस्वारुद्रेऽब्दस्त्वादित्तेऽस्त्वात् तञ्जानाताञ्जावा पृथिवी मित्रावरुणुत्वा वृष्ट्यावताम् व्यन्तु वायुवक् अग्निरिघाणामरुतां रघाति अनगच्छ वशात् कृष्णिर्भूत्वा दिवाङ्गच्छ ततो नुवृष्टिमाव जम् परिभिम् प्रजधत्था अग्ने देव पणिवृगुजमानः तन्त एतमनुजोकम् भराम्ये कनयत्वदपचि त्वयाता अग्नेः प्रियम् पातो पीतम् सकुश्रमभागास्थिका बृहन्तः प्रस्तरेष्ठाः परिदेयाश्च देवाः इमाचमभि विश्वे गृणान्त आसद्यास्मिन् वरेहि किमादयद्वाहात् घृताचीस्थो धुजौपातसुस्थासु मे मा दत्त यज्ञानामश्च त उप च यज्ञस्य शिवे सातिष्ठ समस्मिष्टेमे सम <coughs> तदने दब्धायो शीतमपाहि मत् दिद्यो पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुर्दनमन्या अभिखन्नः पितुम् कृणुसुखदाशो न स्वाहा स्वाहा सरस्वत्यै जशो भगिन्यै स्वाहा वेदोऽषिजेन त्वान्देव वेद देवेऽभ्यो दे दे दे वेदो दे भवस्तेन वैजाम् वेदो दे भूयाः देवा गातु विदोघातुम् गा वित्त्वा गातुमित मनसपत इमान् देवजज्ञ वा स्वाहा वाते धाः संवरिहिरन्ताग्हविका घृतेन समादित्यैर्वसुभि संवर्द्भिः समिन्द्रुव विश्वदेवेभिरन्तान् दिव्यान्न गच्छतु जत्स्वाहा कस्त्वा विमुञ्चति सत्त्वाभिमुञ्चति कस्मै त्वाभिमुञ्चति तस्मै त्वा विमुञ्चति पूगाय रक्षसाम् भागोऽषि साम्पर्चसापयसा सन्तनु भीरगन्महिमनसा सिवेन त्वष्टा सुदत्रोऽविदधातु रायोनु माष्टु तन्वो यद्विलिष्टम् दिविष्णुर्व्यक्रगुस्तोजागतेन छान्दसा ततो निर्भक्तो जो अस्मान् वेयष्टीजायान्विखमो अन्तारिक्षेय विष्णुवक्रगुस्तत्रै यष्टु वे गच्छान् दोषात् निर्भक्तो जो अस्मान् वेऽष्टीजायान्विखमाः पृथिव्यत् विष्णुवक्रगुस्तो गायत्रेणच्छान् दोषात् ततो निर्भक्तो जो अस्मान् वेयष्टीजा भायान् द्विखमोऽस्मादन्न दस्यै प्रतिष्ठाया अगन्म स्वाहा सञ्जो तिका भूम स्वयम्भूरासि श्रेष्ठोरश्मिन्वचोदासि वचो मे देहि सूर्यस्या वृतामन्वा वर्ते अग्नेग्रयापते सूर्यया पतिस्त्वयाग्नेहायपतिना भूयास सूर्य अपतिस्त्वं याग्नेग्रेहपतिना भूयाः अस्थूरिणौ गारेः पत्यानि सन्तुषतग्निमाः सूर्यस्यावृतमन्वावर्ते अग्नियव्रतपतियव्रतमचानि कन्तदश कन्तम् भेराधि नमःस्मि सोऽस्मि अग्नाकवाहनाय सोम ये मेस्पता असुरा रक्षाशिवेदि खदा जे रूप प्रति स्वधया सधयाचर परा पुरो निपुरोजे भरान्तनिष्टान्दोकात् प्रणुदात्यस्मात् अत्र पितरो मादयध्वम् यथा वा गमावृकायध्वम् हमीमदन्त पितरो यथा वा गमावेकायिखत नमो वाहा पितरो रसाय नमो पितरः शोक य नमो वा पितरो जीवाय नमो वा पितरा स्वधायै नमो वा पितरो घोराय नमो वः पितरो नमो वा पितरो नमो गृहान्नः पितरो दत्तसतो वः देक्ष्मै तद्वाहा पितरो वास आधत्त पितरोगर्भम् कुमारं पुःकर्षजम् जथेह पुरुहो सत उवर्जं वहन्तीलं हृताम्बयाः कीलालं परिश्रुतं स्वधाश्चतर्पयत मे पितृन्न इति द्वितीयः